ृष्टोऽपाम्रेशभो देसृष्टाग्नयो दिव्याः रुचन् बालि रुचन् मृणन् प्रमृणन् लोको मनोहार्धाः आत्मा दोषस्तनो दोषेः इदन्तमतिसृजामितम् माभ्यमानिक्षे तेन तमभ्यतिसृजामोय ग्रामस समुद्रम् भोभ्यपा सृजामि कोऽ स्वा आग्निरमितम् विरजामिम् रोगम् खनिम् तानो दोषिम् योपापोऽविवेशदेशयद्वाघोरम् तदेतत् हरिप्रापो अपरिप्रमस्मत् स्मदेनोः वहन्तु प्रदुःस्वप्नम् वहन्तु शिवेन माचक्षोशापश्यतापः शिवया तन्वोपस्पृशतत्त्वचम् मे शिवानग्नेनासृषदो हवामहे मयि क्षत्रम् वर्चा धत्तदेवीः निर्दोरमण्या ओर्जामधोमतीवाग मधोमतेश्च मधोमतेम् वाचामुदेयम् उपहोतो मे गोपा उपहोतो गोपीथः सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रम् श्लोकम् श्रोयासम् शुश्रोतिश्च मोपश्रुतिश्च महासृष्टाम् सौपर्णम् चक्षुदः सञ्ज्योतेः ऋषेणाम् प्रस्तरासि नमोऽस्तु दैवाय प्रस्तराय मोर्धाहम् राजीनाम् मोर्धा समानानाम्भोलासम् रुदश्च मा वेनश्च महासृष्टाम् मोर्धा च माविधर्मा च महासृष्टाम् माधरुणश्च महाशिष्टाम् विमोदश्च मात्रपविश्च महाशिष्टा मात्रदानश्च मातरिश्वा च महाशिष्टाम् बृहस्पदमहात्मा धर्मणानामनहृद्याः असन्तापम् मे हृदयमवेगौव्यो दिः समुद्रास्मि भिरहम् राजीणाम्नाभिः ना समानानाम्भूयासम् श्वासदासि शोषा अमृतो मत्येष्वा मा माम् प्राणोहासेन्मोहापाणो बहाय रागात् सोऽमान्नपात्पर्ज्ञः प्रशं व्यावायुरन्तरिक्षाद्यमो मानुष्येभ्यः सरस्वती पार्थेभ्यः प्राणापानौ मामाशिष्टम् माजने प्रमेशे स्वस्त्या आद्योषसो दोषसश्च सर्वापः सर्वागणोऽशीया षक्वालेस्तवशभोमोपश्चे शर्मित्रावरोणौ मे प्राणापानावच्छम् दधातु विद्मदेः स्वप्नचरित्रङ्ग्राह्या पुत्रासु यमस्य अकलणः अन्तगोसि मृत्युरासिन्ताः स्वप्न तथा संविद्वसनः स्वप्नदुःस्वप्न्यात्पाहि विद्मतेः स्वप्नचरित्रनिर्वृत्या पुत्रासि यमस्य अकलनः अन्तगोसि मृत्युनासि न्त्वास्वप्नदथा संविद्मसनः स्वप्नविष्वप्न्यात्पाहे विद्मदेस्वप्नजनिभ्रमभोत्यापुत्रा यमस्य अन्तकोऽसि मृत्युल्लासे तन्ताः स्वप्नदथा संविद्वसनः स्वप्नदुः स्वप्न्यात्माहे विद्मदेः स्वप्नजनित्रम् पराभूत्या पुत्रासि अनस्य कदा नः अन्तकोऽसि मृत्युल्लासे तन्ताः स्वप्नदथा संविद्वसनः स्वप्नविः स्वप्न्यात्माहे विद्मतेः स्वप्नचरित्रम् देवजामीनाम् पुत्रासि यमस्य कराणः अन्तगोऽसि मृत्युदासि हन्ताः स्वप्न तथा संविद्वसनः स्वप्नदुःस्वप्न्यात्पाहे अटेस्माभ्यासानामाप्या भूमानागसो वयम् उषा यस्माद्दुःस्वज्ञातभयेष्मापदुच्छत द्विशते तत्परा वः शशदे तत्परा वः यन् विस्मा यश्चाद्रे स्थितस्मा येन गमयामः उषा देवी वाचा संविदाना वाग्देव्योषदा संविदाना संविधानो वाचस्पते वृषस्पतेना संविदानः मुष्मे परा वहन्तरायान् ध्वनान्नः सदान्दाः कुम्भे का दोषे काः पीयकान् जाग्रद्दुष्वप्नम् स्वप्ने दुष्वप्नम् अनागमिष्यतोपरा न वित्ते सङ्कल्पाहमुच्च परमुस्माग्नेवाः परा वहन्त्वमध्यथा सद्भिधो न साधुः तेनैनम् विद्याम्यभोत्येनम् ते विद्यामि निर्भोत्येनम् विद्यामि परा भोच्चेनम् विद्यामि ग्राह्येन विद्यामि तमासेनम् विद्यामि देवानानेनम् घोरे क्रूरे वयेष्वानस्येनन्दम् स्त्रयोरपि दधामि देवानेवावसागारत् दे। योऽस्मान् देष्टितमात्मा द्वे स्त्रियम् वयम् विष्मश्च आत्मानम् देष्टो निर्दिशन्तम् दिवो निप्रेशिव्यानिरन्तरिक्षात् इदमहमामुष्यायने एमुष्या पुत्रे दुष्व्यम् मृजे यदोदो अभ्यगच्छन् यद्दोषायत्पूर्वाम् रात्रिम् यज्जात्सुप्तो यन्ति वायन्नम् यरहरहरभिगच्छामि तस्मादेन मादे सञ्जाहितेन मन्दस्वदस्य वृष्टेरपि शृणेः अस्माकेवेत्तम् प्राणो चाहातु जितमस्माकमद्भिन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकै यज्ञोस्माकम् पशवोऽस्माकम् प्रजा अस्माकम् वीला अस्माकम् अस्माकमम् नभाजामोऽमुमामुष्याय नोष्यात्पुत्रमसौ यः सग्राह्या पाशान्मोचे तस्येदम् वच्चेज प्राणमायुर्निवेष्टयामेदमेनमधाराञ्चम् पादयामि इदमस्माकमुद्भिन्नमस्माकमदमस्माकम् जोऽस्माकम् ब्रह्मास्माकम् स्वारस्माकम् यज्ञास्माकम् पशवास्माकम् प्रजास्माकम् वीरास्माकम् तस्मादम्यजायामोमामुष्याय मोष्यात्पुत्रमसूयः स निर्वत्या पाशान्नामोचे तस्येदम् वचस्तैदप्राणमायुर्निवेष्टयामि तमेकमधाराञ्चम् वादयामि इयमस्माकमुद्भिन्नमस्माकामृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वारस्माकैर्यज्ञ जभो अस्माकम् प्रजा अस्माकम् वेदा अस्माकम् अस्माकमम् न्यग्भाजामो मामुष्यायन ममुष्यात्पुत्रमसौ यः शोभोश्चात् पाशान् मामोचे अस्येदम् वर्चश्चेदः प्राणमायम् निवेष्टयामेदमे नमधाराञ्चम् विरमस्माकमध्यनिन्दमस्माकम् हृतमस्माकम् देदास्माकम् ब्रह्मास्माकम् स्वरस्माकै यज्ञास्माकम् पशवोऽस्माकम् प्रजा अस्माकम् वीरा अस्माकम् तस्मादमम् निर्भाजामोऽमामुष्यायण ममुष्यात्पुत्रमसौ यः स निर्भोऽस्यापाशान्माचेत् तस्येदम् वर्चश्चेदप्राणमायम् विवेष्टयामिदमेव मम धाराञ्चम् वादयामि चिरमस्माकमुद्भिन्नमस्माकमृतमस्माकम् देधास्माकम् ब्रह्मास्माकम् स्वारस्माकम् यज्ञास्माकम् परपास्माकम् प्रजास्माकम् वेदा अस्माकम् तस्मादमुम् निर्भाजामो मुमामुष्टाय न ममुष्टा पुत्रमसौ यः सपरा भोत्ता पान्मा मोचे कश्चेदम् वर्तश्चय प्राणमायुर्निवेष्टयामि वादयामि दिनमस्ताकमुद्भिन्नमस्माकमृतमस्माकम् जयगास्माकम् ब्रह्मास्माकम् तस्येदम् अच्छस्येदप्राणमायर्निवेष्टयामि इदमे अस्मा तमम् न भाजायामोमुमामुष्याय न ममुष्याः पुत्रमसौ यः सपृहस्पतेः पाशान्मा मोजे अस्येदम् वर्चस्येदः प्राणमाह्यम् निवेष्टयामेदमे नवधारान्तम् पादयामि कृतमस्माकमभ्यन्नमस्माकमृतमस्माकम् तेजास्माकम् ब्रह्मास्माकम् स्वरस्माके यज्ञास्माकम् वजवास्माकम् प्रजा अस्माकम् वेदा अस्माकम् अस्माकमम् नर्भाजामो ममामुष्यायणममुष्यापुत्रमसो यः स तस्येदम् वर्चस्य प्राणमायुर्निवेष्टयामेकमेनमधाराञ्चम् वादयामिकमुद्भिन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकम् यज्ञोस्माकम् पशवोऽस्माकम् भजा अस्माकम् वीरा अस्माकम् अस्माकमन्निर्भाजामोमुमामुष्या पुत्रमसौ यः सहशेनाम् पाशान् मामोदे तस्येदम् वर्थस्य प्राणमायम् निवेष्टयामेदमेनमधारान्तम् पादयामि निदमस्माकमुद्भिन्नमस्माकमृदमस्माकम् देतोऽस्माकम् ब्रह्मास्माकम् स्वरस्माके यज्ञोस्माकम् पशवास्माकम् प्रजा अस्माकम् वीरा अस्माकम् अस्माकमम् निर्भाजामुमामुष्यायलममुष्या पुत्रमसौर्यः सायाणाम् पाशान्ममोजे तस्येदम् वर्चस्यजः प्राणमायुर्निवेष्टयामिदमेन मृधाराञ्चम् वादयामि इदमस्माकमुद्भिन्नमस्माकमृतमस्माकम् देशास्माकम् ब्रह्मास्माकम् स्वरस्माकम् यज्ञो तस्मादमभाजा मोमुमानुषाय नषा पुत्रमसौ यः ओङ्गेरसाम् पाशान् मामोचि तस्येदम् वर्चस्तेजः तस्माकम् निर्भाजामो मायणमोषः पुत्रमसौजः साङ्गिरसान् पाशान्मोचि तस्येदम् वर्चश्च प्राणमायम् विवे नष्टयामेतमेन मधाराञ्चम् पातयामि चिरमस्माकमद्भिन्नमस्माकमतमस्माकम् देजास्माकम् ब्रह्मास्माकम् स्वादस्माकै यज्ञास्माकम् पशवास्माकम् प्रजा अस्माकम् वेदा अस्माकम् तस्माकमम् दर्भाजामुमामुश्चायममुश्च पुत्रमसो यः सोऽ श्चेदम् वर्तस्येत प्राणमाशुर्निवेशश्चयामिदमेन मधराञ्चम् वादयामि इदमस्माकमुभ्यन्दमस्माकमृतमस्माकम् देजोऽस्माकम् ब्रह्मास्माकम् स्वारस्माकम् यज्ञोस्माकम् पशवास्माकम् प्रजा अस्माकम् वेदा अस्माकम् मुष्याय न ममुष्यापुत्रमसौ यः सः सर्वणाम् पाषाण्मोजे तस्येदम् वर्चस्तेज प्राणमायम् निवेष्टयामेदमेन मधाराञ्चम् पादयामि निजमस्माकमुद्भिन्नमस्माकमृतमस्माकम् तजोऽस्माकम् ब्रह्मास्माकम् स्वस्माकै यज्ञो अस्माकम् वीरा अस्माकम् तस्मादमन्दर्भाजामोमुष्यायनममुष पुत्रमसौ यः स वनस्पतेनाम् पाशान् मामो चेत् अस्येदम् वर्तस्येदः प्राणमायम् विवेष्टयामिदमेन मधाराञ्चम् वादयामि इदमस्माकमुद्भ्यन्नमस्माकमृतमस्माकम् देदोऽस्माकम् ब्रह्मास्माकम् सारस्माकै यज्ञोऽस्माकम् पशवोऽस्माकम् वरास्माकम् वेलास्माकम् तस्मादमुन्नर्धायामोऽवामुश्चाय न ममुश्च पुत्रमसौ यः सपानस्पत्यानाम् पाशान्मोचे तस्येदम् वर्तश्चेदप्राणमायुर्निवेष्टयामेदमे नाञ्चम्पादयामि इदमस्माकमुद्भिन्नमस्माकमृतमस्माकम् तजोऽस्माकम् ब्रह्मास्माकम् सदस्माकै यज्ञोऽस्माकम् पशवोऽस्माकम् प्रजास्माकम् वीरास्माकम् तस्मादमुन्नमो ममास्यायणममुश्च पुत्रवसो यः सदतो नाम् पाशान्मामोजे तस्यैवम् वर्चस्येदः प्राणमायुर्निवेक्षयामिदमेनमधनाङ्कम् वादयामि यदमस्माकमभ्यन्नमस्माकामृतमस्माकम् तेतोऽस्माकम् ब्रह्मास्माकम् स्मादस्माकैरज्ञोस्माकम् वृषपोऽस्माकम् प्रजास्माकम् लीलास्माकम् तस्मादमुम् निर्भाजामोष्याय न मुष्याः पुत्रमसौ यः सानाम् पाशान्मामोचे तस्य इदम् वर्चश्चेदः प्राणमायुर्निवेष्टयामिदमे नमधारान्तम् वादयामि इदमस्माकमुद्भ्यन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकैः यज्ञोस्माकम् अजवास्माकम् प्रजा अस्माकम् वेदा अस्माकम् तस्मादमुन्नमामुच्याय नमुच्या पुत्रमसूयः स्वाषाणाम् वाषान्वामोचे स्वेदम् वर्तस्य प्राणमायम् निवेचयामेव मे नान्तम् प्रादयामि यदमस्माकमुभ्यन्नवत्माकमृतमस्माकम् देगोऽस्माकम् ब्रह्मास्माकम् स्वारस्माकै यज्ञो वास्माकम् प्रजास्माकम् प्रजास्माकम् वेदास्माकम् अस्माकम्युमानुस्सायन पुत्रमसौ यः सोऽर्धमासाम् पाषान् मामोचे परस्येदम् वर्तते प्राणमायुम् निवेष्टयामिदमे नवधारान्तम् वादयामि विधमस्माकमुद्भ्यन्नमस्माकमृतमस्माकम् तेजोऽस्माकम् ब्रह्मास्माकम् स्वरस्माकैय शवास्माकम् गदा अस्माकम् वेदा अस्माकम् तस्मादमम् निर्धाया मामुष्यायण ममुष्या पुत्रमसो यः सो राष्टशान् मामोजे तस्यैदम् वर्तस्य प्राणमायुम् निरेचयामि इदमेतमधानाञ्च पादयामि धृतमस्माकमध्यन्नमस्माकमृतमस्माकम् देजोऽस्माकम् ब्रह्मास्माकम् स्वारस्माके यज्ञोऽस्माकम् प्रजा अस्माकम् वेदा अस्माकम् अस्माकमम् दर्भाजामश्चायन मम स्यात्पुत्रमसौ यः सोऽ संयगो पाशान्मामोजे ेजः प्राणमायुर्निवेष्टयामिदमे पादयामि विदमस्माकमभ्यन्नमस्माकमृतमस्माकम् यज्ञो अस्माकम् तस्मादमम् निर्भाजामो मुमामुष्यायन ममुष्या पुत्रमसौ यः सज्जा पृथिव्यापाशान्माचे तस्येदम् वर्तस्येदः प्राणमायम् निवेक्षयामि न पादयामि यदमस्माकमभ्यन्नमस्माकमदमस्माकम् <laughs> वेगोऽस्माकम् तस्येदम्बर्गस्यैज प्राणमायुर्निवेस्तयामिदमेन मधराञ्चम् वादयामि चिरमस्माकमभ्यन्नमस्माकमृतमस्माकम् देधास्माकम् ब्रह्मास्माकम् स्वरस्माके यज्ञो अस्माकम् मधवास्माकम् प्रजा अस्माकम् देवास्माकम् तस्मानम् मा निर्भाजामो मामुष्याय न ममुष्यापुत्रमसौ यः स्वमिन्द्रावरोढयपाशान्वा मोहोजे तस्येदम् वर्चस्येदप्राणवायुर्निवेष्टयामिदमे न मधनाञ्चम् वादयामि इदमस्माकमभ्यन्नमस्माकमृतमस्माकम् देजोऽस्माकम् ब्रह्मास्माकम् सरस्माकम् रजमास्माकम् प्रजा अस्माकम् वेदा अस्माकम् तस्मादमोऽभाजामोमुमामुष्यायनममुष्यात्पुत्रमसो यः सराज्ञापलोडस्य पाशान्मामोचे अस्यैदम् वर्धस्यैज प्राणमायमेन वाचयामि इदमस्माकमभ्यन्नमस्माकमृतमस्माकम् तेजास्माकम् ब्रह्मास्माकम् सरस्माकैः यज्ञो वास्माकम् अजवास्माकम् प्रजा अस्माकम् भेला अस्माकम् अस्माकम्यभाजामो माहामुष्यायन ममुष्यात् पुत्रमसौ यः समृत्याः पड्मेशात् पाशान् मामोचि तस्येदम् वस्तश्चेदप्राणमायञ्जिरेष्टयामेदमे नान्तम् वादयामि इदमस्माकमद्भ्यन्नमस्माकमभ्यस्ताम् विश्वा पुरा नारादीः प्रदक्तिराहततो सोमाः प्रहसामाधात्सु कृतस्य लोके अगन्म स्वा आसरगन्म संसो यस्य ज्योतिषागन्म अस्य भोजा यवसो मान्यज्ञोऽवसो वंशे